तुभ्यम् तान्यस्तमाश्यामदम् काममग्ने आशानाम् त्वा विश्वाशाः अन्नोज्ञानमधरम् विजनमजयत्वम् कामाभूतस्य कामस्तदग्रे ब्रह्मरिज्ञानम् पिता विराजाः यज्ञो रायो यञ यज्ञः आपो भद्राः पश्यामि तुभ्यम् भरम् द्वियोः ओर्वन्दे वा अभरेण अगवाज्ञस्पृष्टम् देवेभ्यो वै स्वर्गो लोकस्त्योभव प्रजापतिमब्रुवन् प्रजापते स्वर्गो वैनो लोकस्त्यभवदे कैयज्ञैरेच्छद कैयज्ञभिरण्डान्वन्द अभट्टिभिरन्वैरेच्छद अभक्तिभिरण्डविन्द्रिरक्षेणामिष्टम् तायुक्तयुक्त्यादक्षण परोक्षेण परोक्षप्रयाय विदेवाः प्रमाशाः प्रलयेत् प्रजापदाशयाये शरः अहम् अस्मि मान्वेदस्मात् अथज सत्या भविष्यति हनस्वर्गम् लोकम् भेत्से तयेतमज्ञये कामाय परोनाशपष्टागमानञ्जनमपदे आशायी जलम् अनुमत्यै धनम् अनुवेदस्य सत्याशा भवन् अनुस्वर्गम् लोकम सत्याहवास्या भवति अनुस्वर्गम् लोकम्यन्द्रेदेन हविधायुत एवम् वेद श्रोत्रजहोदि अग्नये कामा यस्वाहाशायै स्वाहा अनुमत्यै स्वाहा प्रजापदये स्वाहा स्वर्गानुलोकाय स्वाहाग्नप्रकृते स्वाहे वैश्राम्यसे अहम्बे कामास्मि मास्वा अग्रजयसप्तकामा भविष्यते अनुस्वर्गम् नागम्येत्स्यसे अगेतमग्रये कामाय परोजमष्टाजमालञ्जर कामाय धरम् अनवत्पेतरम् ततो वेतस्य सत्यः कामा भवद् अनुस्वर्गन् आगमविन्दले सत्यो हवास्य कामा भवते अनुस्वर्गम् लोकम् इन्द्रियतेन अनुजायते अभुजेन देवम् वेद सोत्र अग्नय कामाय स्वाहा कामाय प्रजापतये स्वाहा अहमवे ब्रह्मा अस्मि माम् न यस्मात् अथ च ब्रह्मण्वारेज्ञो भविष्यति अनुस्वर्गम् लोकम् चेत्स्ये सहेतमग्ने कामाय पुरोडागमष्टागपालन्निरभवद् ब्रह्मणेतरम् अनुरत्ते जलम् अतो वेदस्य ब्रह्मण्वा यज्ञो भव अनुस्वर्गम् लोकमविन्दरे ब्रह्मन्वानहवास्त्रेज्ञो भवते अनुस्वर्गम् लोकम् निन्दने व्यगेतेन हविधायुजेन देवम् वेद श्रोत्रलहोये अग्नय कामाय स्वाहा ब्रह्मणे स्वाहा हनुमत्ते स्वाहा प्रजापतये स्वाहा स्वर्गाय लोकाय स्वाहाग्नय स्पष्टकृते स्वाहेन कञ्यज्ञोः ब्रवे यज्ञेन वैशान् अहमवैयज्ञोऽस्मि मान्महेजस्मा असदे सत्यो यज्ञा भविष्यले अनुस्वर्गल् लोकम् वेत्सरे स्वगेतमग्नैकामाय परोडाचमट्टागपानन्दिरभवज यज्ञायतरम् अनुभक्तेतरम् अनुवेतस्य सत्यो यज्ञो भवज अनुस्वर्गम् लोकम् विन्दले सत्यो हवास्य यज्ञो भवति अनुस्वर्गम् लोकम् विन्दने हविषायले भूजेन देवम् वेद श्रोत्रजोदे अज्ञय कामायस्माः यज्ञायस्वाहा अनुमत्ये स्वाहा प्रजापदये स्वाहा स्वर्गाय लोकाय स्वाहाय स्पृष्टकृते स्वाहेति अवापो ब्रुवन् प्रजापदे अप्सुवे सर्वे कामाश्वाः अयम् वा आपस्मः अस्मान्वयस्मा सर्वे कामाश्रयिष्यन्ते अनुस्वर्गम् लोकम् वेत्सदेति ष्टागपालम् निरवपदे अभ्यस्तरम् अनुमर्गेतरम् सर्वे कामाश्रयन्द अनुस्वर्गम् लोकमविन्द्रे सर्वे हवास्मिन्कामाः श्रयन्ते अनुस्वर्गम् लोकम् इन्द्रि यगेतेन हविषायरे योगेन देवम् वेद सोतृहे अग्नय कामाय स्वाहाभ्यस्वाहाः अनुमत्ये स्वाहा प्रजापतये स्वाहा स्वर्गाय लोकाय स्वाहाय स्पष्टकृतये स्वाहे तमज्ञल्पविमानम् भवेद प्रजापतेपदे सर्वाणि भूतानि वलिगूहरन्ति अहम् वा अज्ञल्पविमानस्मि मास्मा अथ ते सर्वाणि अनुस्वर्गम् लोकम् वेत्सरे सगेदमञ्जके कामायमष्टागपालञ्जलवम् अनुमत्ते जलम् ततोऽपि अस्मै सर्वाणि भूतानि बलिवहरन् अनुस्वर्गम् लोकमविन्दन् सर्वाणि अस्मै भूतानि बलिगम् हरन्ति अनुस्वर्गम् लोकम् विन्दने देवम् वेद श्रोत्रयो अग्नये रामाय स्वाहाग्न स्वाहा अनुमत्ते स्वाहा प्रजापदये स्वाहा स्वर्गाय लोकाय स्वाहाग्नैत्यकृते स्वाहे तमनुवित्तिरब्रवीत् प्रजार्गम् मे लोकमनुवित्ससि अहम् महानुवित्तिरस्मि महान् नयजस्वा असरे सत्यानुवित्तिर्भविष्यति अनुस्वर्गम् लोकम् वेत्स्येते स एनमग्नय कामायणागमष्टागमालञ्जलभवने अनुमित्ते अनुमत्येतरम् ततो वेदस्य सत्यानुवित्तिरभवदे अनस्वज्ञमविन्दये सत्याहवा अस्यानुवित्तिर्भवते अनस्वज्ञकम् विन्दये हविषागि योजेन देवम् वेद स्तोत्रजहोदे अग्नय कामा यस्माहानुवित्ते यस्माहाः अनुमत्ते स्वाहा प्रजापगे स्वाहा स्वर्गादिलोकाय स्वाहाप्रकृते स्वाहे कामानेताः सप्त स्वर्गस्य लोकस्य द्वारः विवश्यो निमित्तयो नाम आशाः प्रथमागो वक्षते कामो द्वितीया ब्रह्मतृतीया यज्ञश्चे आपः पञ्चमे अग्गल्पविमान् षष्ठे अनुविः सप्तमे अनुभवे स्वर्गम् लोकम् विन्दते कामुकारोस्य स्वर्गे लोके भवति वेदा आस्वन्मुष्टे अष्टो हि वरान्त्या त्रीया भारकौ समृद्ध्ये तपसा देवादेवतामग्राहन् तपसण्डविन्दन् तपदा सुरतामारादेः येन एकम् विश्वम् परिभोजयदस्ते प्रथमजम् देवयो हविषा विधेम स्वयम्भ ब्रह्मपरमन्द्रमोयले स एव पुत्रस्य पितासमाता प्रमोह यक्षम् प्रथमकम् सम्बभूव श्रद्धया दे मोदे वक्तमश्रुले दे। देवी सानो निषाणोऽपि ज्ञमागाले कामवत्सामृजम् दुहाना श्रद्धा देवी आविः श्रद्धागौ हविषा यजामहे तानो लोकमदम् दृशादो ईशाना देवी भुवनस्याधिपत्नी आगात् सत्यगौ हविरम् विषानम् यस्माद्देवायज्ञभुवनम् च विश्वे तस्मै दे विधेम हविषाशेन समानम् वदेम यस्क प्रतिष्ठोन्तरिक्षम् यस्माद्देवायज्ञभुवनम् च सर्वे तदसत्यमर्थम् न आगात् ब्रह्माहुर्वमोदमानम् मनसोपशेषविलम्बभूव नान्यस्य मनोपशमन्व्याय भेष्मो हि देवः सह तस्सहीयान् सरोनिषाणमागान् आगूनि रामधिपञ्चेतसाम् च सङ्कल्पजोतिम् देवम् विपष्टिम् मनोराजानमिह वर्धयन्तः महवेशुमतोस्याम शरणम् पवित्रम् विरतम् प्रधानम् तेन पवित्रेण शुद्धेन भूताः आत्मानमरादिन्दरेम लोकस्य द्वारमच्चिमत्पवित्रम्भाजमानम् बहस्पदे अमरस्य धारा बहुधा दोहमानम् अननम् नो लोके स्थितान्तधातो अज्ञर्मूर्धा भुवः अनुणोद्यानमजनत्वम् हव्यवाद्यस्पृष्टम् देवेभ्यो वे स्वर्गो लोकस्थिरोभवत् ते प्रजापतिमब्रुवन् स्वर्गो वै लोकस्थिराभूदृच्छेते अय्यज्ञकृतिभरन्वैरेच्छदे अयज्ञकृतिभर्णाण्डमिन्द्रेष्टैरेच्छलमिष्ट्रे त्वाम् एष्टयेत्याक्षेण परोक्षप्रियायुरेण अहमु वैतपोस्मि मान्वयजस्मा भविष्यति अनुस्वर्गम् लोकम् वेत्सदेतम् अनुस्वर्गम् लोकम इन्द्रे प्रत्यगम् अनुस्वर्गम् लोकम् इन्द्रेद श्रोत्र लिहो ये अग्नये स्वाहा स्वाहा अनुमत्यै स्वाहा प्रजापदये स्वाहा स्वर्गाय लोकाय स्वाहा अग्नये स्वाहेन अग्निश्रद्धाभ्रवेन प्रजापदे श्रद्धया वै श्राव्यसि अहमवे श्रद्धास्मि माग्नयस्मा अथ ए सत्या श्रद्धा भविष्यति अनुस्वर्गम् लोकम् वेत्सदि ष्टागपालञ्जनभवने श्रद्धायैतरम् न मत्केतरम् करोपेतस्य सत्याः श्रद्धा भवने अनुस्वर्गम् लोकम् विन्दले सत्यावाहस्य श्रद्धा भवति अनुस्वर्गम् लोकम् विन्दलेधायदेन वेद स्वान्तुर्ये अग्निये स्वाहा श्रद्धायै हनुमत्ये स्वाहा प्रजापदये स्वाहा स्वर्गाणि लोकाय स्वाहाकृ स्वाहेऽपि अयम् सत्यम्रवीण प्रजापते सत्येन हरेश्रान्म्यसे अहमपि सत्यमस्मि मा नगजस्वा असदे सत्ययम् सत्यम् भविष्यति अनुस्वर्गम् लोकम् वेत्सदेयमष्टागपालञ्जले सत्याय जलम् अनुमत्ये जलम् ततो वेतस्य सत्यगम् सत्य भवते अनुस्वर्गम् लोकमविन्दते सत्यगम् भवास्य सत्यम् भवति अनुस्वर्गम् लोकम् विन्दते धूरेण एवम् वेद सहोत्रविभो अग्नये स्वाहा सत्याय स्वाहा स्वाहा प्रजापतये स्वाहा स्वर्गाय लोकाय स्वाहा अग्नये तृष्टकृतये स्वाहेति ब्रह्मणोः ब्रमेत् नोऽस्मि तस्मात् सत्यम् मनो भविष्यति अनुस्वर्गम् लोकम् वेत्सेमष्टागमानभवम् अनमत्येतरम् ततो वेदस्य सत्यम् मनो भवते अनुस्वर्गम् लोकमविन्दरे सत्ययम् भवास् मनो भवति अनुस्वर्गम् लोकम् विन्दलेण यौतेन देवम् वेद श्रोत्रजहोदे अग्नये स्वाहा मनसे स्वाहा अनुमत्यये स्वाहा प्रजापदये स्वाहा स्वर्गाय लोकाय स्वाहाये स्म प्रकृते स्वाहेदे प्रजापते चरणेन वैष्ट्याहम् अहमुरणमस्मि महान् वेदस्वये सत्यम् चरणम् भविष्यति अनुस्वर्गम् लोचे सेतमाग्मष्टागपालन्दन भवते चरणाय जलम् अनुमत्ये जलम् ततोपे तस्य सत्यक्षरणस्वर्गम् लोकविन्दरे अनुस्वर्गम् लोकम् विन्दरे स्वाहाय स्वाहा अनुमत्यै स्वाहा स्वाहा स्वर्गाविलोकाविस्वाहाग्नये कृते स्वाहेते तावागेता पञ्च स्वर्गस्य लोकस्य द्वारः अपाघ अनुवित्रयो नाम तमःपृथवागो रक्षति श्रद्धा द्वितीयाः अत्यन्तनीयाः मनश्चर्थ्ये चरणम् पञ्चमे अनुहलैः स्वर्गम् लोकम् विन्दते कापचारोऽस्य लोके भवते ष्टम्भवेशतुः एनम् शब्दम् आभिरमागच्छति एवम् वेदोदनातमम् वेदम् जहोदृत्तम् सर्वाः स्वै कल्पन्ते वायस्पृतिविरहोराजहोदरीणाम् पृथिवीर्होदाचतुर्होदृणाम् अज्ञहोदापञ्चहोदरीणाम् वाग्भोदाोदृणाम् महाहविरहोदा रत्नहोदरीणाम् एतद्वे चतुर्होदृताम् अथवा पञ्चहोदृताम् सर्वाः स्वीच कृष्पन्ते यग एवम् वेद येषामी सर्वविद्या एतद्भेटजम् स्वर्गस्य लोकस्याः एतानुवभ्रवः सर्वमायुते ब्रह्मवत्यशीभवते एतानुयोध्यैते स्रमोत्यात्मानम् प्रजान् एतानुवारणौपवेशद्विदान्त एते अधिवादमपादेन अथवाम् पाप्मानौ एतानि अधिवादम् जयदे असो अविश्वम् पाप्मानौ एतेन व्यञ्जन् वेदस्वर्गकामः एनेन आयुष्कामः प्रजापशुकामो वा पुनस्तादृशो दक्षिणतप्रान्तरम् सप्तादिनञ्च पञ्चहोदारम् उत्तरदत्राहोदारम् उपरिष्टात्राञ्च सप्तहोदारम्पत्यश्च यथावकाशङ्ग्रहान् यथावकाशम् प्रतिग्रहाल्लोकम् वृणाश्च सर्वाः स्थिता देवताः क्रीता अभीष्टा भवन्ति रथसंश्चव्यः अज्रेणैव आत्मानम् धातुर्व्यग्निस्पृणुते अक्षः संविदश्चेदव्यः एताभाः यावत्पक्षः अर्षंविदमेव जुनुते इवमेव लोकम् पशुमध्येनाभिजयति अथो अग्निश्लोपेन अन्तरिक्षमुखेन सर्वान् लोकानुहीनेन अथो दत्तेन परोदक्षिणास्पृणोति पर आत्माहिवनः एकविंशतिर्दक्षिणा ददाति एकविंशो वायुधस्वर्गो लोकः प्रस्वर्गम् लोकमा आप्नोति समादित्य एकविंशः अन्ये वा नित्यमा आप्नोति स्तरम् ददाति स्तरायुष्पुरुषश्चेन्द्रियः आयुष्येवेन्द्रिये प्रतिष्ठे सहस्रम् ददाति सहस्रसंविधस्वर्गो लोकः स्वर्गस्य लोकस्याभिचित्ते अन्विष्टकम् दक्षिणादनानि सर्वाणि वयागुन्धे सर्वस्याद्य सर्वस्यावरुद्धे यज न विन्देत ता, मन्थाने तावतो दव्यादोदनानुवाह अष्टतेरम् कामम् यस्मै कामायाग्निश्चीयते अष्ठो हेम् तन्तर्वते दद्यान् साहि सर्वाणि स्यात्यै सर्वस्यावरुद्धै हिरण्यं ददाति हिरण्यज्ञोतिरेवस्वर्गम् नागमेदि वासोददादि तेनायै दे त्रिसत्याभिदेवाः ससत्यमज्ञे ब्राह्मणम् ब्रूयात् नेतुेषु यज्ञेषु यो हवीतग्रहोद्रेण सुनन्दर्पे द्रुव्याय एतेभ्याः अभ्यो यद्दक्षिणारणष्टज्ञः स्यात् अग्निमस्तु वृञ्जेरन् तेभ्यो यथा श्रद्धम् दद्यात् सृष्टमय वेदत्क्रियते नास्याज्ञ हिरण्येष्टको भवति यावदत्तममङ्कुलिकान्दज्ञपरुषासंविदम् तेजोहिरण्यम् यदि हिरण्यम् न विन्दे शर्करा उपलध्यात् तेजोऽस्नम् तेजसमेवाज्ञञ्चिरुते अग्निञ्चित्तासो प्राभुण्याभिषेद मैत्रावरुण्या वा वीर्येण वारेषु व्यर्थ्यते वा किञ्चिदेव यावदेव वीर्यम् तदस्मिन् दृशादि ब्रह्मणः सायुज्यकम् सुलोगता माप्नोति एतासामेव देवता नागम् सायुज्यम् साक्षागम् सोमानलोकतामाप्नोति येन वण्यम् चिनृते युजेन एवम् वेद एतदेवता वित्रे ब्राह्मणम् अथो नाजिकेते यच्चामृतम् यच्चमम् यच्चप्राणि यच्छना सर्वास्तायष्टगा कृत्वा उपगापुदारे य ब्रह्मणादगाङ्ग्रुमाशीय सर्वास्त्रियः सर्वान् भगुंसः सर्वानस्त्री भुगुञ्जेरे सर्वास्ताः यावन्तः पाकुंसवभूमेः सञ्चारदेव भाग्याः सर्वास्ताः यावन्तभूषाः पशूनाम् दिव्याम् वृष्टिरिहराः सर्वास्ताः यावदी सिगताः सर्वाः अप्सन्दश्चगाश्रवाः गर्भास्ताः यावदे शर्कराधर्तेः अस्याम् पृथिव्यामुे गर्भास्ताः यावन्तोऽश्वानोऽस्याम् पृथिव्याम् प्रतिष्ठाः सर्वाः पृष्ठिताः पृथिवे मनो गर्भास्ताः वृष्टिता पृथिवेव न सर्वास्ताः यावन्तो वर्णश्रयः अस्याम् पृथिव्यामदे सर्वास्ताः यावन्तो ग्राम्याः पृशवः सर्वेः आरण्याश्रये सर्वास्ताः ये द्विवादश्वादः अवाद उदरह्यः सर्वास्ताः यावदाञ्जनमुच्चदेः एवत्रायच्छस्ताः यावत्कृष्णाय सकं धर्मम् देवत्रायच्छमारुढम् सर्वास्ताः यावल्लोहाय सकं धर्मम् देवत्रायच्छमारुषम् सर्वास्ताः सर्वगुंसे सकुन्दम् तपो देवत्रायच्चमारुढम् सर्वास्ताः सर्वगं ह्यगौरजम् देवत्रायच्छ मारुषम् सर्वास्ताः सर्वगंसुवान्धौ हरिदम् देवत्रायच्छमारुषम् सर्वास्ताष्टगा कृत्वा उपगामतुघार्थे तेन ब्रह्मणा गयादेवदयाङ्गिरस्मध्रुवादेन सर्वादिशोक्षो यच्चान्तर्भूतम् प्रतिष्ठितम् सर्वास्ताष्टगा कृत्वा उपगामतुघादे नादेन ब्रह्मणा गया देवतयाङ्गिरस्मध्रुवादेन अन्तरिक्षम् च केवलम् यच्चस्मिन्नन्तराहितम् स्ताः आन्तरिक्षस्तया प्रजाः सर्दश्चे सर्वास्ताः सर्वानुदारात्सलिलान् अन्तरिक्षप्रतिष्ठिलान् सर्वास्ताः सर्वानुदारात्सलिलान् स्थावराक्रोश्याश्च सर्वास्ताः सर्वाधुनिकम् सर्वाध्यपुंसान् हिमोक्षीयते सर्वास्ताः सर्वान्वरे सर्वास्ताः सर्वा विद्युतः सर्वान् हादये गच्छ सर्वास्ताः सर्वाः स्वमन्त्रे सरिदः सर्वमोक्षजरञ्जैरे सर्वास्ताः याश्च गोप्या याश्च नाद्याः समुद्र्याः याश्च वैशन्देर्याः सर्वास्ताः एतोन्ति जयमूताः ग्राश्च वर्षन्ति वृष्टयः सर्वास्ताः तपस्ते आकाशम् यच्चाकाशे प्रतिष्ठितम् सर्वास्ताः वायम् वयागुमिति सर्वाणि अन्तरिक्षनम् चेत् सर्वास्ताः अग्नियम् सौर्यम् चन्द्रम् विक्रम् वर्णम्भगम् सर्वास्ताः सत्यग्श्रद्धान्तगोदमम् नाम लोकम् च भूतानाः सर्वास्ताष्टगाः कृता उपग्रामदुःखादयण ब्रह्मणा अया देवदयाङ्ग्रुवादेन सर्वान् भगुम् सर्वान् देवान् दिविभोदम् प्रदक्षितम् सर्वास्ताष्टगाः कृता उपग्रामदुघाल एलर्ष आरेण बृह्मणाया यामदिस्तारकाः सर्वाः विददा सर्वास्ताः सर्वाञ्जिरश्चय सर्वास्ताः इतिहासपुराणम् च सर्पदेव निराश्चय सर्वास्ताः ये च लोका ये च यच्छ ब्रह्म ब्रह्मा अन्तर्ब्रह्मन् प्रतिष्ठम् सर्वास्ताः अहोरात्राणि सर्वाणि अर्धभाषाविश्व केवलान् सर्वास्ताः सर्वान् रोन् सर्वान् भासान् सम्वत्सरम् च केवलम् सर्वास्ताः सर्वम् भोजकम् सर्वम् भव्यम् यच्छातोऽसि भविष्यति सर्वास्ता इष्टगा कृत्वा ब्रह्मणा तया देवदयाङ्गिरस्मध्रुवाहीनगुच्छ दक्षिणा सर्वनामङ्गिरसाम् प्रदेजे महदेजुच्यते ऋेदे तिष्ठति मध्ये अन्धः विधीयतेः ऋग्यो जाताहुः सर्वादर्याश्व सर्वगुम्भेदम् ब्रह्मणा हृष्टम् ऋग्यो जातम् वैश्यम्वर्णमाहुः चतुर्वेदक्षत्रियस्यार्योनिम् सामवेदो ब्राह्मणानाम् प्रसूतिः पूर्वे पूर्वेभ्यो आदर्शमद्यञ्जिन्वालाः विश्रोणदाः शतम् दीक्ष्णाः सत्रमासना सहायत्रयम् सत्यगम् होतै रामाधेयेत यद्विस्मृतजाहसदा अमृतमे अभ्यमुदगायतम् वरिवत्सरान् भोतगमहप्रस्तोतय रामाधेयेत भविष्यत्प्रजाहरत् प्राणो अध्वर्यलभवत् सर्पकम् विशासना यप्राचक्षदद्धरे आर्दवा उपगातारः तस्यार्दवो भवन् अर्धमासाश्च मासाश्च प्रवसाद्धर्यवो भवन् अशगम् सद्ब्रह्मणस्तेजः अच्चावाको भवद्वेजापशास्तासेज यज्ञासदा ऊर्जानमुदवहत् भगवोपस्तो भवत् ओजोभ्यष्टो ग्रान् यद्विश्वसजा सदा अपचितमेया मेज मेष्ट्रेया मेजद्भिः आग्मे हत्याम् श्रद्धा हैवायजच्छयम् शिरावत्मेश्वसजा आकुनिरमिणद्भविः विद्वगो हक्षच्चैलेभ्यमुग्ने कृष्णा चावहताब्धे वागे सागुम् शुक्रम् भण्यासे ये च क्षन्दो योगानुराजेदानि सङ्गस्थात्रे पदुभ्यौश्यापतिः विश्वसुजः प्रथमा सत्रमाधुराणस्य गोपाः निर्ब्रह्मनामोद्धः पुत्रेण आवेदगन्मनुदयम् गृहन्तम् सर्वानुभमात्मानगुम् सम्परायेमाभ्या कर्मणावर्धने लोकनीयान् तस्यैवात्मापदवित्तम् व्यजित्वा अकर्मणालिप्यते पापकेन पञ्चपञ्चाशरः सफलः संवत्सराः पञ्चपञ्चाशतः पञ्चदशाः पञ्चपञ्चाशरः सप्तदशाः पञ्चपञ्चाशर एकविशंशाः एतेन विश्व तस्मानव ब्रह्मणः सायुध्यकम् सलोकता एतायामेव देवतानागुम् सायुध्यम् साष्टिताम् समानलोकतायन्ते एतैनप्राहुः एभ्यश्चैनप्राहुः ओ हरिः ओ काककः